अथ पराध न मन्त्रं नो यन्त्रं तदपि च न जाने स्तुतिवो न चापायनं ध्यानम् तदपि च स्तुतिकथा न जाने मुद्रास्ते तदपि च न जाने विलपनं परं जाने मात त्वदनुशरणं क्लेशहरणं विधेरज्ञानेना द्रविणविरहेडालसतया विधेयासक्यत्वात् तव तदेत तदेतच्छन्तभ्यं जननि सकलोद्धारिणि शिवे कुपुत्रो जायेत क्वचिदपि कुमाता न भवति पृथिव्यां पुत्रास्ते जननि बहव सन्ति सरला परं तेषां मध्ये विरलतरलोऽहं तव सुतमरीयोऽयं जाग समुचितमिदं क्वचिदपि कुमाता न भवति जगन्मातर्माता तव चरणसेवा न रचिता नवा देवी द्रविणमपि भूयस्तव तथापि त्वं स्नेहम् मयि निरुपमं यत्र कुरुषे कुपुत्रो जायेत क्वचिदपि कुमाता न भवति परिद्यता देवा विविधविधिसेवा कुलतया मया पञ्चासीते अधिकमपनीते तु वयसि इदानीं मे मात् तव यदि कृपानापि दरजननिकं यामि शरणं सपाको भवति मधुपाकोपमगिरा निरातङ्कुरङ्को विहरति चिरं कोटिकनके तवार्पणे कर्णे विशति मनुवर्णे परमिरं जनको जानीते जननि जपडीयं जपविधो चिताभस्मालेपो गरलमशनं देपठधरो जटाधारी कण्ठे भुजगपतिहारी पशुपति कपाली भूते सु भजति जगदिषैकपदवीं भवानी त्वत्पाणि ग्रहणपरिपाटे पलविधं न मोक्षस्याकाङ्क्षा भववि भगवान् चापि च न शशिमुखी सुखे चापि न पुन तत स्वां सय्याच जनन्यजननं यातु मम वै मृडाणि रुद्राणी शिव शिव जपत नाराधितासि विधिना दिविधोपचारी किं रुक्षचिन्तनपरैर्ण कृतं वचोभि श्यामे तमेव यदि किञ्चनमयि अनाथे दशे कृपामुचितमं बपरं तवैव आपशुमग्नमरणं तदेयं करोमि करुणा न वेसे मम भावयेता क्षुधाति शार्ता जननीं स्मरन्ति जगदम् परिपूर्णा करुणा तु चेन्मयी अपराधपरं परा परं माता मुपेक्षते श्रुतं मत्समपातके नास्ति पापग्निं तत्समानहि एवं महादेवी यथा योग्यं तथा कुरु यथा योग्यं तथा कुरु ॐ श्रीजगदम्बायै नमः